थैकविंशः सर्गः ततः सागरवेलायाम् दर्भा नास्तीर्य राघवः अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिष्ये महोदधेः बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः जातरूपमयैश्चैव भूषणैर्भूषितम् पुरा मणिकाञ्चनकेयूरमुक्ता प्रवरभूषणैः भुजैः परम नारीणामभिमृष्टमनेकधा चन्दना गुरुभिश्चैव बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् शयने चोत्तमाङ्गेन सीताया पुरा तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् संयुगे युग शोकवर्धनम् सुहृदाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् अस्य ता च पुनः सव्यम् ज्याघातविहत त्वचम् दक्षिणो दक्षिणम् बाहुम् महापरिघसन्निभम् गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् अद्य सागरस्य वा इति रामो धृतिम् कृत्वा अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः सत्रिरात्रोषितस्तत्र धर्मवत्सलः उपासतत तदा पतिम् न च मन्दो रामस्य सागरः प्रयतेनापि रामेण यथार्हमभिपूजितः समुद्रस्य ततः रामो रक्तान्तलोचनः समीपस्थमुवाचेदम् लक्ष्मणम् शुभलक्षणम् अवलेपः समुद्रस्य न दर्शयते यः प्रशमश्च क्षमा आर्जवम् प्रियवादिता असामर्थ्यफला निर्गुणेषु सताम् गुणाः आत्मप्रशंसिनम् दुष्टम् धृष्टम् विपरिधावकम् सर्वत्रोत्सृष्टदण्डम् च लोकः सत्कुरुते नरम् न साम् नाशक्यते कीर्तिर्न साम् नाशक्यते यशः प्राप्तुम् लक्ष्मणलोकेऽस्मिन् जयो वारणमूर्धनि अद्य मद्बाणनिर्भग्नैर्मकरैर्मकरालयम् निरुद्धतोऽयम् सौमित्रे प्लवद्भिः पश्य सर्वतः भोगिनाम् पश्य भोगानि मया भिन्नानि लक्ष्मणा महाभोगानि मत्स्यानाम् करिणाम् च कराणि ह सशङ्खशुक्तिका समी नमकरम् तथा अद्य महता समुद्रम् परिशोषये क्षमया हि समायुक्तम् मामयम् मकरालयः असमर्थम् विजानातिधिक्षमामीदृशे जने न दर्शयति साम् नामे सागरो रूपमात्मनः चापमानय सौमित्रे शरांश्चाशीविशोपमान् समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तोप्लवङ्गमाः अद्या क्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् वेलासुकृतमर्यादम् सहस्रोऽर्मि समाकुलम् निर्मर्यादम् करिष्यामि सायकैर्वरुणालयम् महार्णवं क्षोभयिष्ये महादानवसङ्कुलम् एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारिते क्षणः बभूवरामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् सम्पीड्य च कम्पयित्वा शरैर्जगत् मुमोच विशिखानुग्रान् वज्रानिवशतक्रतुः ते प्रविशन्ति समुद्रस्य जलम् वित्रस्तपन्नगम् तोयवेगः समुद्रस्य समी नमकरो महान् स बभूव महाघोरः समारुतरवस्तथा महोर्मिमाला विततः शङ्ख शुक्तिसमावृतः स धोमः परिवृत्तोऽर्म्यः सहसासीन् महोदधिः व्यथिताः पन्नगाश्चासन्दीप्ता स्यादीप्तलोचनाः दानवाश्च महावीर्याः पातालतलवासिनः ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः आघोर्नितरङ्गौघः सम्भ्रान्तो रगराक्षसः उद्वर्तितमहाग्राहः सघोषो वरुणालयः ततस्तुतम् राघवमुग्रवेगम् प्रकर्षमाणम् धनुरप्रमेयम् सौमित्रिरुत्पत्य विनिश्वसन्तम् मामेति चोक्त्वा धनुरारलम्बे एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम् भवद्विधा क्रोधवशम् न यान्ति दीर्घम् भवान् पश्यतु साधुवृत्तम् अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्म ऋषिभिश्चैव सुरर्षिभिश्च शब्द कृत कष्ट ब्रुव्द्भिर्मा मेति चोक्वा महता स्वरेण इदर्शे श्रीमद्मा आदि काव्ये युद्धकांडे एक सर्ग